नारदपुराणम् पूर्वार्थम् अध्यायम् सिक्स्टी नैन् सनत्कुमार उवाच अथ वक्षेत्रयी मूर्तेर्विधानं पदेहे मन्त्राणां यत्समाराध्य सर्वेष्ठम् प्राप्नुयाद्भुवि तारोरेचिकया युक्तो मेधा ससर्गा वाम वामकर्णोऽढ्यो भृगुर्वढ्यासनो मरुद शेषोदित्य इति प्रोक्तो वस्वर्णो भुक्तिमुक्तिदः देवभागो मुनिश्चन्दो गायत्री देवता रविः मायाबीजं रमाशक्तिर्दृष्ठाधिष्ठे नियोगकः सत्याय हृदयं पश्चात् ब्रह्मणे शिरकीरितम् शिखावर्मरुद्राय परिकीर्तितं नेत्रं स्यादग्रये पश्चात्सर्वायास्रमुदाहृतम् नेत्रोज्वालामनो हुं फट् स्वाहां ता मनवो गणाः पुनषडर्नैर्ह्रीलक्ष्म्याः कृत्वा तस्थैषडङ्गमम् शिष्ठारौ जडरे शिष्ठारौ जढरे पृष्ठे तयोर्ङ्गेन्ताख्ययान्यसेद आदित्यं च रविं पश्चाद्भानुं भास्करमेव च सूर्यं च मूर्ध्नि वदने हृदि गुह्ये च पादयोः सद्यादिपञ्चक्रस्वाद्यान्यस्रेन्ये हृदयोऽन्दिमान् ह्रीं रमामध्यगामष्ठौ वर्णां स्तारादिकान्यसेद ूर्धास्य कण्ठ हृत्कुक्षिनाभिलिङ्गगुदेषु च सचन्द्रस्वरपूर्वं तु नेदं शीतांशुमण्डलम् मूर्धादिकण्ठपर्यन्तं न्यसेन् चान्द्रिमनुस्पृरन् स्पर्शान सेन्दून् समुञ्जार्यङें तम् भास्करमण्डलं न्यस्येत्कण्ठादिनाभ्यन्तं ध्यायन् प्रद्योतनं हृदि यादीन् सचन्द्रानुञ्चार्यङेदं च वह्निमण्डलं नाभ्यादिपादपर्यन्तं न्यस्येद्वाह्निमनुस्मरन् प्रोक्तोयं मण्डलन्यासो महातेजो विधायकः आदिष्टान्तार्णपूर्वं ङेम् न मोदम् सोममण्डलम् मूर्धादिहृदयान्तं तु विन्यसेत्साधगोत्तमः तकारादिक्षकारान्त वर्णाद्यं वानिमण्डलम् णेदम् हृदादिपादान्तं विन्यसेत् सुसमाहिदः अभी सोमात्मको न्यासकथितः सर्वसिद्धिदः न्यस्येत् सेन्दून् मातृकार्णाञ्जयान्दपुरुषात्मने नमो देव्यापगं मन्त्री हं स्नाया सोऽयमीरिदः अष्टावष्टौ स्वरान् शेषान् पुनः उक्तादित्यमुखानेतान्विन्यसे च नवग्रहान् आधारलिङ्गयोर्नाभौ हृदि खण्डे मुखान्तरे भ्रूमध्ये च तथा भाले ब्रह्मरन्ध्रे न्यक्षेत्क्रमाद हंसाख्यमग्निशौमाख्यं मण्डलत्रयमेव च पुनरन्यासत्रयं कुर्यान्मूलेन व्यापकं चरेद एवं न्यासविधिं कृत्वा ध्यायेत्सूर्यं कृदंभुजे। भुजे नानाभयाब्जयुगलं धारयन्तं करैरविं कुण्डलां गदकेयुरहारिणं च त्रयीतनुं ध्यात्वैवं प्रजपेन्मन्त्री वसुलक्षं दशांशदः रक्ताम्बोजैस्थिलैर्वाभि जिहुयाद्विधिवद्वसौ प्रथमं यजने धर्मादीनां स्थले यजेद। प्रभोदं विमलं शारं समाराध्यमनन्तरं परमादिमुखं मध्ये खम्बि भां तं प्रपूजयेद् सोमाग्निमण्डलं पूज्य मर्चयेद दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा अमोका विद्युदा सर्वदो मुखी सर्वतोमुखीपीठशक्रयः ह्रस्वत्रयो क्रिजाक्लीबहि नावु संयुताः स्वराबीजानिशक्तीनां तदा ्याः पूजये तु स्थाः ब्रह्मविष्णु शिवात्मा ते सृष्टिशेषान्विताभ्यसौ एवं चान्दे योगपीठात्मने हृदयमीरयेद ताराद्योऽयं पीठमन्त्रस्त्वेनैनासनमादिशेद ध्रुवो वियद्बिन्दुयुधं कं का कोल्काय धृन्मनुः नवार्णाय च मनवे मूर्तिं सङ्कल्पयेत् सुधिः साक्षीणं जगदां तस्यामावाह्यविधि वद्येद् तद षडङ्गामाराध्यद्विक्ष्वष्ठाङ्गां दिक्ष्वष्ठाङ्गं प्रपूजयेद् सम्पूज्य मध्ये वादित्यं रबिम्भानुं च भास्करं सूर्यं दिशु सद्यादिपञ्चह्रस्वादिकानीमान् तत्स्वनामादिवर्णाद्याः शक्तयोर्च्या विदिक्षु च उषां प्रज्ञां प्रभां सन्ध्यां ततो ब्रह्मादिकान्यचेद पुरतोरुणमभ्यर्च्य सोम्यं च गुरुं भृगुं द्वि र्यमादिका निष्ठवा भूमिजं च शनैश्चरं राघुं केतुं च कोणेषु पूर्ववत् परिपूजयेद् इन्द्राद्यानपि वज्राद्यान् पूजयेत् पूर्ववत्सुधिः इत्थं सम्पूज्य विधिवद्भास्करं भक्तवत्सलं समाहितो दिनेशाय दद्यादर्घ्यं दिने दिने यम्य सूम्ञा सासा कृवा पुरोता पीढ़ पूर्व वदर्चेद ध्याे दिव्युपचारक पात्र ताम्रम प्रस्तौय सुशोभन निधा मंडले रक्त चन्दनादिविनिर्मिते विलोम मादृगामूलमुञ्चरन्पूरयेज्जलैः सूर्यबिम्बविनिर्गच्छत् सुधाम्बुधिविभाविदैः कुङ्कुमं रोजनाम राजीं चन्दनं रक्तचन्दनं करवीरं जपाशालि कुशश्यामा कदं दुलान् तिलवेणुयवांश्चैव निक्षिपेत् सलिले सुखे साङ्गं सावरणं तत्रा वाह्यार्थं पूर्ववद्यजेद् गन्धपुष्पधूपदीपनैवेद्याद्यैर्विधानदः प्राणायामत्रयं कृत्वा कुर्यादङ्गानि पूर्ववद सुधा बीजं चन्दनेन दक्षे करतले लिखेद् तेना चाध्याम जपेन्मनुमन्यधी अष्टोतर सदाया पुनः संपूज्य पात्रमादाय अस्ताभ्यां पात्रुभ्याद आमूर्धनि पात्रमूधृत्यांबरेण वरने रेहे दृष्टिं साधाय मनसा पूजयित्वा रविं पुनः साधकेन स्वकैक्येन मूलमन्त्रं धिया जपन् अर्घ्यं दद्याद्रविं ध्यायक्त्रचन्दनमण्डले दत्त्वा पुष्पाञ्जलिं भूयो जपे दष्टोत्तरं नित्यं वा तद्विनेप्येवमर्घ्यम् दद्याद्विवस्वते तेन तुष्टो दिनेशोऽस्मै दद्याद्वितं यस्य सुखं पुत्रान् पौत्रान् अभीष्टं च यद्यत् सर्वं प्रयच्छति आर्ख्यदानमिदं प्रोक्तमायुरारोग्यवर्धनं धनधान्यपशुक्षेमक्षेत्रमित्रकलत्रदं त्यजोवीर्ययशकीर्तिविद्याविभवभोगधं गायत्र्याराधनासक्तसन्ध्यावन्दनतत्परः एवं मनुं जपन् विप्रो दुःखं नैवाप्नुह्यात् क्वचिद् विकर्तनाय निर्मल्यमेवं सम्बोध्य दाभयेद वियद्वह्नि मरुत्साद्यां तार्वीसेन्दुसमन्वितं मार्ताण्डभैरवाक्यं हि बीजं त्रैलोक्यमोहनं बिम्बबीजेन पुडिदं सर्वकामफलप्रदं पूर्ववत्सकलं चान्यदत्रज्ञेयं मनीषिभिः भृगुजलेन्दुमन्वाढ्यसोमाय हृदयान्तिमः षडक्षरो मन्त्रराजो मुनिरस्य भृगुर्मदः छन्दपङ्क्तिस्तु सोमोऽस्य देवदा परिकीर्तिता आद्यं बीजं नमशक्तिर्विनियोगोऽखिलाप्तये षड् दीर्घेण स्वबीजेन षडङ्गानि समाचरेद पूर्णे द्वास्यं स्फटिकभं लसन्मुखं विभ्राणमिष्टं कुमुदं ध्यायेन्मुक्तास्रजं विधुं ऋतुलक्षं जपेन्मन्द्रं पायसेन सर्पिषा जिह्कुह्यात्तशांशेन पीठे सोमान्दपूजिते मूर्तिमूलेन सङ्कल्प्य पूजयेद्विधिवद्विधुम् केसरेष्वङ्गपूजा स्यात् पत्र श्वेताश्च चक्रयः रोहिणीकृत्तिका चैव रेवभरणी पुरः रात्रिराद्रा ततो ज्योत्स्नाकलाहारसमप्रभा सुशुक्लमाल्यवत्सनामुक्तहारविभूषिताः सर्वास्तनभराक्रान्तारचिताञ्जलयः शुभाः स्वप्रियासक्रमनसोमदविभ्रममन्थराः समभ्यर्थ्या सरोजाक्ष्यपूर्णेन्दुसदृशाननाः बलाग्रेषु समभ्यर्थ्या स्ष्ठ सूर्याधिकाग्रहाः आदित्य भूसुदबुधमन्ददेवे जराहवः युताख्यदे शुक्रकेदुयुताह्यदे पूज्यां पत्रग्रगाग्रहः रक्तारुणस्वेदनीलपीदधूम्रसिदासिताः वामोरुण्यस्तदधत्ता दक्षिणेन धृदाभयाः सोकपालांस्तदस्त्राणि तद्वाख्ये पूजये सुधीः येव संसाधितो मन्त्रप्रयश्चेदिष्टमात्मनः पौर्णमास्यां जिदाहारो दध्यादर्घ्यं विधुदये मण्डल त्रितर्यं गुर्यात् प्राक्प्रत्यगायदम्भुवि पश्चिमे मण्डले स्थित्वा पूजा द्रव्यं च मध्य मे संस्थाप्य सोममन्यस्मिन् मण्डलेब्जसमन्विदे सामभ्यर्थ्यं विधानेन पीठपूजनपूर्वकं स्थापयेद्राजदं पात्रं पुरतस्तत्र मन्त्रविद सुरभिपयसपूर्व तं स्पृश्यन् प्रजपेन्मनुम् अष्टोत्तरशतं पश्चाद्विद्यामन्त्रेण मन्त्रविद दध्यान्निकरायार्घ्यं सर्वाभीष्टार्थसिद्धये कुर्यादनेन विधिना प्रतिमासमदन्धृदः वर्षान्तरेण सवष्ठं प्राप्नोति भुवि मानवः विद्ये विद्यामालिनि स्यादन्द चन्द्रिणि कवदे चन्द्रमुखी द्विष्ठां तोयं विद्यामन्त्र उदाहृदः एवं कुमुदिनीनाथमन्त्रं यो जपति ध्रुवं धनं धान्यं सुधान् पौत्रान् सौभाग्यं लभते चिरादे अधङ्गारभमन्त्रं तु वक्ष्ये धनसुतप्रदं तारो दीर्घेन्दु यु व्योम तदेवेन्दु युधः पुनः क्रमार्देदु विसर्गिणैः षडर्नोऽयं महामन्द्रो मङ्गलस्य अखिलेष्टदः विरूपाक्षो मुनिश्चन्दो गायत्रं देवताकुजः मन्त्रार्णैषड्भिरङ्गानि कुर्वन्ध्यायेद्धरात्मजं मेषधं रक्तवस्त्राङ्गं शूलशक्तिगदावरन् करैर्बिभ्रणमीशानस्वेदजं भूं सुदं स्मरेद रसलक्षं जपेन्मन्त्रं दशांशं खदिरोद्भवैः समिद्धिर्जुहयादग्नौ शैवे पीठे यजेत्कुजं प्रागङ्गानी समाराध्ये ह्येकविंशतिकोष्टकं मङ्गलो भूमिपुत्रस्य ऋणहर्ता धनप्रदः स्थिरासनो महाकाय सर्वकर्मावरोधकः लोकितो लोहिताक्षश्च कृपाकरः धरात्मजकुजो भूमिदो भूमिनन्दनः अङ्गारको महीसूनु वृष्टिकर्ता वृष्टिकर्ता सर्वकार्यार्थसिद्धिदः इत्येक विशदि प्रोक्ता मूर्तयो भूसुतस्य वै मङ्गलादीन्यज्येन्मन्द्री स्वस्वस्थानस्थितान् क्रमाद् इन्द्राद्यानभिभज्रादीनेवं सिद्धो भवेन्मनुः सुतपामा कुरं गाखी भौमव्रतमुपाचरेद मार्गशीर्षेद वैशाखे व्रतरम्भ प्रशस्यते अरुणोदयवेलायमुद्धाया वश्यकं पुनः विनिर्वर्त्य रदान्धा वेदपामार्गेण वाग्यथा स्नात्वा रक्ताम्बरधरा रक्तमाल्यविलेपनं नैवेद्यादींश्च सम्भारान् रक्तान् सर्वान् प्रकल्पयेद योग्यं विप्रं समाहूय कुजमर्चेत्तथाज्ञयं रक्तगो गोमयालिप्तभूमौ रक्दासने गो, गो रक्दा विषेद आचम्यदशकलौज स्मृत्वा काम्यसमुच्चरन् मङ्गलादीनि नामानि स्वकीयाङ्गेषु विन्यसेद मुखे प्रविन्यसेत्साध्वी समदानां कृपाकरम् तरात्मजं न सो रक्ष्णोकुजं भौमं ललाडके भूमिदं दुभ्रुवोर्मध्ये मस्तके भूमिनन्दनम् अङ्गारकं शिखायां च सर्वाङ्गे च महीसुतं बाहुद्वये न्यसेत् पश्चात् सर्वरोगापहारकं मूर्धादिवृष्टिकर्तार मापादां दं न्यसेत् सुधीः विन्यसे दृष्टिहा हर्तारं मूर्धां तं चरणादिदः न्यसे दन्ते तदो दिक्षु सर्वकार्यार्थसिद्धितं नाभौ हृदिशिरस्यारं वक्रे भूमिजमेव च विन्यस्यैवं निजे देहे ध्यायेत्प्राग्वरात्मजं मानसैरुपतारैश्च सम्पूज्यार्ध्यं निधापयेत् एकविंशतिकोष्ठाढ्ये त्रिकोणताम्रपत्रगे आवह्याङ्गारकं तत्र रक्तपुष्पादिभिर्यजेद् अङ्गानि पूर्वमाराध्यमङ्गलादीन् प्रपूजयेद् एकविंशतिकोष्ठेषु चक्रमारं ज त्रिकोणेषु च सम्भुज्य च मातृकाः इन्द्रादीनथ वज्रादीन् वाह्ये सम्पूजयेत् पुनः धूपदीपौ समर्प्याथ गोधूमान्नं निवेदयेद ताम्रपात्रे शुद्धतोयपूरिते रक्तचन्दनं रक्तपुष्पाक्षतफलान्याक्षिप्यार्थं समर्पयेद मङ्गलाय दतो मन्त्री इदं मन्त्रद्वयं स्वेदोद्भव पिनाकिनः सुतात्तिनि प्रपन्न त्वां गृहाणार्ध्यं नमोस्तु दे रक्तप्रपालसङ्घर्षजपकुसुमसन्निभा महीसुतमहाभाग गृहाणार्ध्यं नमोऽस्तु दे एकविंशतिपूर्वोक्तैर्ज्ञे न मों तैश्च प्रदक्षिणाः धरणीगर्भसम्भोतं विद्युतेज समप्रभं कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहं ततो रेखात्रयं दुर्यात् कधिराङ्गारकेण च मार्जयेद्वामपादेन मन्त्राभ्यां च समाहिता दुःखदौर्भाग्यनाशाय पुत्रः सन्तानहे दवे कृ रेखात्रयं वाम पादेनैदत्प्रमार्ज्म्यहं न दुःखविनाशाय मनोभीष्टार्थसिद्धये मार्जयाम्यसिदारेखास्तिस्रो जन्मत्रयोद्भवाः स्तुविदधरणीपुत्रं पुष्पाञ्जलिकरा तदः भोजं तत्पदाम्भोजम्बूजा साङ्गत्वसिद्धये ऋण हर्ते नमस्तभ्यं दुख दारिद्र्यनाशिने सौभाग्य सुखद निंमेणीसुद तप्त कांचन संघर्ष तरुणाक्रभ सुख सौभाग्यधनद ऋण दारिद्र्यनाशक नमस्तेकल्याणकारक प्रसाद गुरदेष्वर्वल्याणभाजन देव दानवगन्धर्वयक्षराक्षसपन्नकाः आप्नुवन्ति शिवं सर्वे सदा पूर्णमनोरथाः आचिरादेव लोकेऽस्मिन् यस्याराधनदो जनाः प्राप्नुवन्ति सुखं तस्मै नमो धरणिसूनवे योऽवक्रगतिमापन्नो नृणां दुःखं प्रयच्छति पूजितसौख्यसौभाग्यं तस्मै क्ष्मा सूनवे नमः नभसि द्व्योधमानाय सर्वकल्याणहेतवे मङ्गलायनमस्तुभ्यं धनसन्तानहेतवे प्रसादं प्रदमंगला मे भौममङ्गलप्रदमङ्गलमेषवासनरुद्रात्मन् देहि पुत्रान्धनं यशः एवं स्तुत्वा प्रणम्याद विसृज्य धरणि सुदं यथाशक्त्या प्रदायस्वं, स्वं गृह्णीयात् ब्रह्मणाशिषः गुरवे दक्षिणां दत्वा भुञ्जीयात् तन्निवेदितं एव मा वत्सरं कुर्यात् प्रतिमङ्गलवात्सरं तिलैहोमं विधायाध सदार्थं भोजयो द्विजान् भौममूर्तिं स्वर्णमयिमाचार्याय समर्पयेद मण्डलस्ते खडेभ्यर्चेत् सुदसौभाग्यसिद्धये एवं व्रतपरा नारी प्राप्नुया सुभगान् शुद्धान् ऋणनाशाय वित्तार्थं व्रतं कुर्यात् पुमानपि ब्राह्मणः प्रजा प्रजापेन्मन्द्रमग्नेर्मूर्धेदिवैदिकम् अङ्गारकस्य गायत्रीं वक्ष्ये यजनसिद्धये अङ्गारकाय शब्दान्ते विद्महे पदमीरयेद् शक्तिहस्ताय वर्णान्ते धीमहीदि समुञ्जरेद् तन्नो भौम प्रजो वर्णान् दयान्दि च भौमस्यैषा दुगायत्री जप्तु सर्वेष्टसिद्धिदा भौमोपासनमे दधि बुद्धमन्त्रमथोच्यते फां थ कर्णेन्दुसंयुक्तो बुधो ङेदे अदं तीमहाणोम्बुधमन्त्रोऽयं मुनिब्रह्मस्य कीर्तिदः पङ्क्ति चैदो सर्वेष्टदो नृणाम् आद्यं बीजं नमशक्तिर्विनियोगो किला तये वन्दे बुधं सदा भक्त्या पीताम्बरविभूषणं जानस्तवामहस्ताढ्यं साभये भयेतरपाणिकं ध्यात्वेवं प्रजपे सहस्रं विजितेन्द्रियः दशांशं जिहुयादाध्यैपीडे पूर्वोदिदर्शयेदे अङ्गमादृ दिशापालहे दिभिर्बुधमर्चयेद् एवं सिद्धे मनो मन्त्री साधयेत्स्व मनोरथान् सहस्रं प्रजापेन्मन्त्रं नित्यं दशदिनावधि तस्यास्यु ग्रहजापीडा नश्यत्येवनसंशयः बुधस्याराधनं प्रोक्तं गुरोर आराधनं शृणु बृहस्पतिपदं ङेन्दं सेन्द्वाद्यर्नाघमण्डितं नमोन्दो वसुवर्णोय मुनिर्ब्रह्मस्य सम्मदः छन्दोनुष्टुप् सुराचार्यो देवता बीजमादिमं ह्यच्छक्तिर्दीर्क वन्येन्दुयुग ङ्गकल्पना न्यस्तवामकरं राशौ रत्नानां दक्षिणात्कराद किरं तं पीदपुष्पालं कारालेपांशुकार्चिदं सर्वविद्यानिधिं देवगुरुं स्वर्णद्युतिं स्मरेद लक्षं जपो दशांशेन हृदयेन वाहुनोद वाहुनेद धर्मादिपीठे प्रयजेदङ्गदिक्पालहे दिभिः एवं सिद्धे साधये मन्त्री विपरोगादि पीडासु कलखे स्वजनोद्भवे पिप्पलोद्धसमिद्भिश्च जुहुया तन्निवृत्तये कुत्वादिनत्रयं मन्त्री निशापुष्पैर्हृतप्लुतैः स विंशतिशतं शीघ्रं वासं शि लभसे महीं गुरुराराधनं प्रोक्तं शृणु शुक्रस्य साम्प्रतं वस्रं मे देहि शुक्रायद्वयान्धो ध्रुवाधिकः रुद्रार्णो यं मनुर्ब्रह्म मुनिश्चन्दो विराहुद दैत्येजो देवता बीजं ध्रुवशक्तिर्वसुप्रिया भूनेत्रचन्द्रनेत्राग्निनेत्रार्णैः स्यात् षडङ्गमं शुक्लाम्बरालेभूषं करेण ददधं धनं वामेन शुक्रं व्याख्यानमुद्रादोषं स्मरेत् सुधिः अयुधं प्रजापेन्मन्त्रं दशांशं जुहुयात् हृदैः धर्मादिपीठे प्रयजे दङ्गे द्रादिददायुधैः श्वेदपुष्पैः सुगन्धैश्च जुहुया भृगुवासरे एकविंशतिवारं यो लभते सों शुकं मणिन्मनवो मे सदा गोप्या न शिष्याय देयावा देया निजसुनवे यिदि श्री बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मन्त्रविधाननिरूपणं नामैकोनसप्ततितमोऽध्यायः ॐ